श्रीमद्भागवत् महापुराणं दशंस्कन्ध षट्षष्टितमोऽध्यायः यते क्षिप्त्वासितैर्बाणैर्विरथीकृत्य पौण्ड्रकं शिरोभिश्चतुर्थाङ्गेन वज्रेणेन्द्रो यथा गिरेह तथा काशीपते काया क्षीरवत्कृत्य पत्रिभि न पाति यदि एवम्बशरिणम् भत्वा पौण्ड्रकम् शशकम् हरिः द्वारकामाविशसिद्धे गीयमालकथामृतः स नित्यम् भगवद्ध्यार प्रध्वस्ताखिलबन्धन बिभ्राणश्च हरे राजन् स्वरूपं तन्मयोऽभवत् शिरपतितमालोक्य राजद्वारे शकुण्डलम् किमिदम् कस्य वा वक्त्रम् इति संशीर्षिरे जनाः राज्ञ काशिपतेर्ज्ञात्वा महिष्य पुत्रबान्धवाः पौराश्च हा हता राजन्नाथ कृत्वा संस्थाविधिम् पितुः निहत्य पितृहन्तारम् यास्याम्यपचितम् पितुः इत्यात्मनाभिसन्धाय सोपाध्यायो महेश्वरम् सुदक्षिणोर्चयामास परमेण समाधिना प्रीतो विमुक्ते भगवान् तस्मै वर्मदाद्भव पितृहन्त्रे वधूपायं स वव्रे वरमीप्सितम् दक्षिणाग्निपरिचर ब्राह्मणे अविचारविधानेन स चाग्निप्रमुथैर्वितः साधिष्यति संकल्पं अब्रह्मण्ये प्रयोजितः यत्यादिष्टस्तथा चक्रे कृष्णायाभिचरन् व्रती ततोऽग्नेरुत्थितः कृष्कुण्डान्मनिर्माणन्ति भीषणः तप्तताम्रशिखाश्मस्रो रङ्गारोद्गारिलोचनः द्रष्टो ग्रभगतिर्दण्डकठोरास्य स्वजिह्वया आलिहन्सि कुङ्कणी नग्तो विषुवस्त्री सुखम् ज्वलन् पद्भ्यां तालप्रमाणाभ्यां कम्पयन्नवनीतलम् सोऽभ्यधावत्पितो भूतैर्द्वारकाम् प्रदहन् दृशः तमाभिचारदहनां मायां तं द्वारकौकश विलोक्यतदृशु सर्वे वनदाहे अक्षय अक्षयसभायां क्रीडन्तं भगवन्तं भयातुराः त्राहि त्राहि त्रिलोके सबन्धे प्रदमतः पुरं त्वज्जनवैलैक्लव्यं दृष्ट्वा श्वानां च साद्वसं शरण्य सम्प्रहस्याह मा भयष्टे च वितास्म्यहम् सर्वस्यान्तर्वहि साखीकृत्यां माहेश्वरीं विभू यज्ञाय तद्विघातार्थं पार्श्वस्थं चक्रमादिशत् तत्सर्यकोटिप्रतिमं सुदर्शनं जाज्वल्यमानं प्रलयानलप्रमं स्वतेजसाकं ककुभोथ रोदसी चक्रं मुकुन्दाश्रमथाग्निमार्दयन् कृत्यानलप्रतिहतः स अस्रौजसास निपभग्नमुखो निवृत्तः वाराणसीं परिसमेत्य सुदक्षिणं तं तर्विज्ञनं समदहन् स्वकृतोभिचारः चक्रं च विष्णो तदनुप्रविष्टं वाराणसीं साट्टसभालयापणाम स गों पुराट्टालकोष्ठसङ्कुलां सकोसहस्वस्वरथान्नशालाम् दग्धा वाराणसीं सर्वाम् विष्णोश्चक्रम् त्रदर्शनम् भूयपाशुम् पातिष्ठन् कृष्णस्याक्लिष्टकर्मणः या एतच्छ्रावयेन्मर्त्य उत्तमश्लोकविक्रमम् समाहितो वास्मि सर्वपापै सर्वपापैः प्रमुच्यते ते श्रीमद्भागवते महापराणे पारमिंशां सयितायां तु संस्कन्दे रुद्रार्थे पौण्ड्रकादिवथो नाम षट्षष्टितमोऽध्याय